भस्मसाम्यजगत्साक्षिणे नमः ॐ तत्त्वसाक्षिणे नमः ॐ तत्त्वमस्यादिमहावाक्यवेद्याय नमः ॐ तापत्रयातीताय नमः ॐ त्रिपुटे साक्षिणे नमः ॐ तारकब्रह्मणे नमः ॐ तेजोराशये नमः ॐ तैजससाक्षिणे नमः ॐ दिव्याय नमः ॐ दोषहीनाय नमः ॐ दुग्रूपाय नमः ॐ दर्पसाक्षिणे नमः ॐ द्रोहसाक्षिणे नमः ॐ द्रोहीनाय नमः ॐ दर्पहीनाय नमः ॐ दिगम्बराय नमः ॐ देवादिदेवाय नमः ॐ दमानिश्चयाय नमः ॐ देवशिखामणय नमः ॐ देशकालवस्तुपरिच्छेदनाय नमः दमबोधाय नमः ॐ दिव्यचक्षुषे नमः ॐ दिव्यज्ञानप्रदाय नमः ॐ दिव्यसम्पूज्यरहिताय नमः ॐ दिव्यलक्षणाय नमः ॐ दृढनिश्चयरुद्योत्याय नमः ॐ दृढदीपचित्तैकलभ्याय नमः ॐ देशकालवस्तुपरिच्छेदवद्भावभानाय नमः ॐ द्रष्टुदर्शनदृश्यनिर्मुक्ताय नमः ॐ दीप्तय नमः ॐ धन्यानां सुलभाय नमः ॐ धराय नमः ॐ धर्माधर्माविवर्जिताय नमः ॐ धीराय नमः धराय नमः ॐ ध्रुवाय नमः ॐ धैर्याय नमः ॐ धीरलभ्याय नमः ॐ धाम्य नमः ॐ ध्यातृध्यानध्येयरूपाय नमः ॐ धूतसंसारबन्धाय नमः ॐ ध्यातृध्यानविहीनाय नमः ॐ ध्येसाक्षिणे नमः ॐ ध्येयवर्जिताय नमः ॐ ध्यातृध्यानसाक्षिणे नमः ॐ धीवेद्याय नमः ॐ ध्यानाय नमः ॐ धात्रे नमः ॐ ध्येयाय नमः ॐ ध्येयधातृध्यानकल्पनाधिष्ठानाय नमः ॐ निर्वाणाय नमः ॐ निरेहाय नमः ॐ निरीप्सिताय नमः ॐ नित्याय नमः ॐ निरवध्याय नमः ॐ निष्क्रियाय नमः ॐ निरञ्जनाय नमः ॐ निर्मलाय नमः ॐ निर्विकल्पाय नमः ॐ निराभानाय नमः ॐ निश्चलाय नमः ॐ निर्विकाराय नमः ॐ नित्यव्रताय नमः ॐ निर्गुणाय नमः ॐ निस्सहाय नमः ॐ निरिन्द्रियाय नमः ॐ नियन्त्रय नमः ॐ निरपेक्षाय नमः ॐ निष्कलाय नमः ॐ निराकृतय नमः ॐ निरालम्बाय नमः ॐ निजरूपाय नमः ॐ निरामयाय नमः ॐ निष्टेष्टानिष्टकलनाय नमः ॐ नाथाय नमः ॐ नित्यमङ्गलाय नमः ॐ निदानाय नमः ॐ नित्यतृप्ताय नमः ॐ निरावरणाय नमः ॐ निरूपस्वरूपाय नमः ॐ निस्सहाय नमः ॐ निरुपाधिकाय नमः ॐ नित्यप्रकाशाय नमः ॐ निश्चिन्ताय नमः ॐ निर्लक्ष्याय नमः ॐ निरन्तराय नमः ॐ नामरूपहीनात्मने नमः ॐ नियोनय नमः ॐ निर्भयाय नमः ॐ निष्कलात्मने नमः ॐ नायकाय नमः ॐ निवेद्याय नमः ॐ निरास्पदाय नमः ॐ निर्याणेत्यादिवाच्याय नमः ॐ निर्वन्द्याय नमः ॐ निरुपप्लवाय नमः ॐ निर्मलात्मने नमः ॐ निरानन्दाय नमः ॐ नादान्तज्योतिषे नमः ॐ निरङ्कुशस्वरूपाय नमः